अथ पञ्चविंशः सर्गः अवष्टब्धनुम् रामम् क्रुद्धम् तम् रिपुघातिनम् प्रदर्शाश्रममागम्यखरः सह पुरःसरैः तम् दृष्ट्वा सगुणम् चापमुद्यम्यखर निःस्वनम् रामस्याभिमुखम् सूतम् चोद्यतामित्यचोदयत् स खरस्याज्ञया सूतस्तुरगान् समचोदयत् यत्र रामो महाबाहुरेको धुन्वन्धनुस्थितः तम् तु निष्पतितम् दृष्ट्वा सर्वतोरजनीचराः मुञ्चमाना महानादम् सचिवाः पर्यवारयन् स तेषाम् मध्ये रथगतः करः बभूव मध्ये ताराणाम् लोहिताङ्ग इवोदितः ततः शरसहस्रेण अर्दयित्वा महानादम् ननादसमरेखरः ततस्तम् भीमधन्वानम् क्रुद्धाः सर्वे निशाचराः रामम् नानाविधैः शस्त्रैरभ्य वर्षन्त दुर्जयम् मुद्गरैरायसैः शूलैः प्रासैः खड्गैः परश्वधैः राक्षसाः समरे शूरम् निजघ्नो ते बलाहकसङ्काशा महाकाया महाबलाः अभ्यधावन्तकाकुत्स्थम् रथैर्वाजिभिरेव च गजैः पर्वतकोटाभै रामम् युद्धे जिघांसवः ते रामेशर वर्षाणि व्यसृजन् रक्षसाम् गणाः शैलेन्द्रमिव धाराभिर्वर्षमाणा महाघणाः सर्वैः परिवृतो रामो राक्षसैः क्रूरदर्शनैः तिथिश्रिव महादेवो वृतः पारिषदाङ्गणैः तानि मुक्तानि शस्त्राणि यातुधानैः स राघवः प्रतिजग्राहविशिखैर्नद्योघानिवसागरः सतैः प्रहरणैर्घोरैर्भिन्नगात्रो न विव्यथे रामः प्रदीप्तैर्बहुभिर्वज्रैरिव महाचलः सविद्धः क्षतजादिग्धः बभूव रामः सन्ध्याभ्रैर्दिवाकर इवावृतः विषे दुर्देवगन्धर्वाः सिद्धाश्च परमर्षयः एकम् सहस्रैर्बहुभिस्तदा दृष्ट्वा समावृतम् ततो रामस्तु सङ्क्रुद्धो मण्डलीकृतकार्मुकः ससर्जनिशितान् बाणाञ्छतशोथसहस्रशः दुरावारान् दुर्विषहान् कालपाशोपमान् रणे मुमोच लीलया कङ्कपत्रान् काञ्चनभूषणान् ते शराशत्रुसैन्येषु मुक्ता रामेण लीलया आददूरक्षसाम् प्राणान् पाशाः कालकृता इव भित्त्वा राक्षसदेहांस्तांस्तेशरारुधिराप्लुताः अन्तरिक्षगता रेजुर्दीप्ताज्ञसमतेजसः असङ्ख्येयास्तु रामस्य सायकाश्चापमण्डलात् विनिष्पेतुरतीवोग्रारक्षः प्राणापहारिणः तैर्ध्वनोंशध्वजाग्राणि चर्माणि कवचानि च बाहोऽन्सहस्ताभरणा नूरोन् करिकरोपमान् चिच्छेद रामः समरे शतशोथसहस्रशः हयान् काञ्चन सन्नाहान् रथयुक्तान् स गजांशसगजारोहान् सहयान् सादिनस्तदा चिच्छिदुर्विभिदुश्चैव रामबाणा गुणच्युताः पदातीन् समरेहत्वा ह्यन यद्यमसादनम् ततो नालीकनारा चैस्तीक्ष्णाग्रैश्च विकर्णिभिः भीममार्तस्वरम् भी चकृच्छिद्यमाना निशाचराः तत्सैन्यम् विविधैर्बाणैरर्दितम् मर्मभेदिभिः नाण सुखम लेकिन केचिभीम बला शूरा प्रालाक्षिप परुद्धा राय रजनीचराषाण महाबा शस्त्रण्या वीर्यवान्हाराणिछेद शिरोधरा ते छिन्नशरसः पेतुश्चिन्न पादपायथा अवशिष्टाश्च तत्र विषण्णास्ते निशाचराः खरमेवाभ्यधावन्त शरणार्थम् शराहताः तान् सर्वान् धनुरादाय समाश्वास्य च दूषणः अभ्यधावत्सु सङ्क्रुद्धः क्रुद्धम् क्रुद्ध निवृत्तास्तु पुनः सर्वे दूषणाश्रय निर्भयाः राममेवाभ्यधावन्त सालतालशिलायुधाः शूलमुद्गरहस्ताश्च पाशहस्ता महाबलाः सृजन्तः शरवर्षाणि शस्त्रवर्षाणि संयुगे द्रुमवर्षाणि मुञ्चन्तः शिलावर्षाणि राक्षसाः तर्बभोवाद्भुतम् युद्धम् तुमुलम् रोमहर्षणम् रामस्यास्य महाघोरम् पुनस्तेषाम् च रक्षसा ते समन्तादभिक्रुद्धा राघवम् पुनरार्दयन् ततः सर्वादिशो दृष्ट्वा प्रदिशश्च समावृताः राक्षसैः सर्वतः प्राप्तैः शरवर्षाभिरावृतः सकृत्वा भैरवम् नादमस्त्रम् परमभास्वरम् समयोजयद्गान्धर्वम् राक्षसेषु महाबलः ततः शरसहस्राणि निर्ययुश्चापमण्डलात् सर्वादश दिशोबाणैरापूर्यन्त समागतैः नाददानम् शरान् घोरान् विमुञ्चन्तम् शरोत्तमान् विकर्षमाणम् पश्यन्ति राक्षसास्ते शरार्दिताः शरान्धकारमाकाशमावृणोत्स दिवाकरम् बभू भावस्थितो रामः प्रक्षिपन्निवताञ्छरान् युगपत्पतमानैश्च युगपच्चहतैर्भृशम् युगपत्पतितैश्चैव विकीर्णा वसुधाभवत् निहताः पतिताः क्षीणाश्चिन्ना भिन्ना विदारिताः तत्र तत्र स्मदृश्यन्ते राक्षसास्ते सहस्रशः सोष्णीषैरुत्तमाङ्गैश्च साङ्गदैर्बाहुभिस्तथा ऊरुभिर्बाहुभिश्चिन्नैर्नानारूपैर्विभूषणैः हयैश्चव्युपमुख्यैश्च रथैर्भिन्नैरनेकषः चामरव्यजनैश्चत्रैर्ध्वजैर्नानाविधैरपि रामेण बाणाभिहतैर्विच्छिन्नैः शूलपट्टिषैः खड्गैः खण्डीकृतैः प्रासैर्विकीर्णैश्च परश्वधैः चूर्णिताभिः शिलाभिश्च शरैश्चित्रैरणे कषः विच्छिन्नैः समरे भूमिर्विस्तीर्णाभूद्भयङ्कर तान् दृष्ट्वा निहतान् सर्वे राक्षसाः परमातुराः न तत्र चलितुम् शक्ता रामम् परपुरञ्जयम् इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे पञ्चविंशः